अथ चतुर्दशः सर्गः सर्वे ते गत्वा किष्किन्धाम् बालिनः पुरीम् वृक्षैरात्मानमावृत्य व्यतिष्ठम् गहने वने विसार्य सर्वतो दृष्टिम् कानने काननप्रियः सुग्रीवोऽपि पुलग्रीवः क्रोधमाहारयद्भृशम् ततस्तु निनदम् घोरम् कृत्वा युद्धाय चाह्वयत् परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् गर्जन्निव महामेघो वायुवेगपुरःसरः अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यमब्रवीत् हरिवागुरया व्याप्ताम् तप्त काञ्चनतोरणाम् प्रतिज्ञाया कृता वीरत्वया वालिवधे पुरा सफलाम् कुरुताम् क्षिप्रम् लताम् काल इवागतः एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः तमेवोवाच वचनम् सुग्रीवंशत्रुसूदनः कृताभिज्ञानचिह्नस्तमनया गजसाह्वया लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता, कृता तव शोभसेऽप्यधिकम् वीरलतया कण्ठसक्तया विपरीत इवाकाशे सूर्यो नक्षत्रमालया अद्य वालिसमुत्थन्ते भयं वैरम् च वानरा एकेनाहम् प्रमोक्ष्यामि बाणमोक्षेण संयुगे मम दर्शय सुग्रीव वैरिणम् भ्रातृरूपिणम् वाली विनिहतो यावध्वने पां यदि दृष्टिपथम् प्राप्तो जीवम् सविनिवर्तते निवर्तते ततो दोषेण मागच्छेत् सद्यो गर्हेच्च भवार भवान् प्रत्यक्षम् सप्त साला मया बाणेन दारिताः तेना वेहि बलेनाद्यवालिनम् निहतं रणे अमृतम् नोक्तपूर्वम् मे चिरम् कृच्छ्रेऽपि तिष्ठत धर्मलोभपरीतेन न च सफलाम् च करिष्यामि प्रतिज्ञाम् जहि सम्भ्रमम् प्रसूतम् कलमक्षेत्रम् वर्षेणेव शतक्रतुः तदाह्वाननिमित्तम् च वालिनोऽ हेम मालिनः निष्पतेद्येन वानरः जितकाशी जय श्लाघी त्वया चाधर्षितः सप्रियसंयुगः त्रिपूणाम् दर्शितम् श्रुत्वा मर्षयं न संयुगे दस्तुस्वकं वीर्यं स्त्री समक्षं विशेषतः स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ननर्दक्रूरनादेन विनिर्भिन्दन्निवाम्बरम् तत्र शब्देन वित्रस्ता गावो याम् ति द्रवन्ति च मृगाः शीघ्रम् भग्ना इव हयाः पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ततः स जीवोदकृत प्रणादो नादम् प्रतीतः सूर्यात्मजः शौर्य विवृधते इत्यार्षे श्रीमद् रामायणे वाल्मीकीये किष्किन्धाकाण्डे चतुर्दशः सर्गः